नारदपुराणं पूर्वार्धम् अध्यायं हण्ड्रेड् अण्ड् ट्वेण्टि त्रि सनातन उवाच शृणु नारदवक्ष्यामि चतुर्दश्या व्रतानि दे यानि कृत्वा नरो जोके लोके सर्वान् कामानवाप्नुयाद चैत्रशुक्लचतुर्दश्यां कुङ्कुमागरुचन्दनैः गन्धाद्यैर्वस्त्रमणिभिक् कार्यार्या महती शिवे विधानध्वजशत्राणि दत्वा पूज्याश्च मातरः एवं कृत्वा अर्चनं अश्वमेधाधिकं पुण्यं लभदे मानवो भुवि अत्रैव दमनार्चां च कारयेद्गन्धपुष्पकैः समर्पयेत् सुपूर्णायां शिवाय शिवरूपिणे राधा कृष्णचतुर्दश्यां सोपवासो निशागमे लिङ्गमभ्यर्चये चैवं स्नात्वा धौदाम्बरसुधीः गङ्गाध्यैरुपचार्यैश्च बिल्वपत्रैश्च सर्वतः दत्वा मन्त्रं द्विजाग्र्याय भुञ्जीतज परेहनि एवमे वधुकृष्णासु सर्वासु द्विजसत्तम शिवव्रतं प्रकर्तव्यं धनसन्तानमिच्छदा राधशुक्लचतुर्दश्यां श्रीनृसिंहव्रतं चरेद उपवासविधानेन शक्तो शक्तस्तथैक भुकनिशागमेदु सम्पूज्य नृसिंहं दैत्यसूदनम् उपचारैषोडशभिष्णानैः पञ्चामृतादिभिः ततः क्षमापयेदेवं मन्त्रेणानेन नारद ना तत् पहाडककेशान्दज्वलत्पावकलोचनवज्राधिकनखस्पर्श दिव्यसिंहनमोऽस्तु दे इति सम्प्राप्य देवे सम्प्रति स्यास्तण्डिलेशयः दितेन्द्रियोजितक्रोधसर्वभोगविवर्जितः एवं यः कुरु विप्र प्रविधिवद्व्रतमुत्तमं वर्षे वर्षे सलभते भुक्तभोगो भोगो पदम् ओङ्कारेश्वर यात्रा च कार्यात्रैव मुनीश्वर दुर्लभं वार्चनं तत्र दर्शनं पावनार्शनं किमत्र पूजाध्यानजपेक्षणं यद्भवेत् तत्समुद्दिष्टम् ज्ञानमोक्षप्रदं नृणाम् अत्र चापि कर्तव्यं पावनाशनं पञ्चामृतैस्तु संस्नाप्य लिङ्गमालिप्य कुङ्कुमैः नैवेद्यैश्च फलैर्धूपैर्दीपैर्वस्त्रविभूषणैः एवं यपूजयेत् पैष्ठम् लिङ्गम् सर्वार्थसिद्धिदम् भुक्तिं मुक्तिं स लभदे महादेवप्रसादतः ज्येष्ठशुक्लचतुर्दश्याम् दिवा पञ्चतपानिशः मुखे ददेद्धेमधेनुम् रुद्रव्रतमिदं स्मृतं श्रुजिशुक्लचतुर्दश्याम् शिवम् सम्पूज्यमानवः दशकालोद्भवैः पुष्पैः सर्वसम्पदमाप्नुयात् नपशुक्लचतुर्दश्यां पवित्रारोपणं मदं तत्त्वशाखोक्तविधिना कर्तव्यं द्विजसत्तम सदाभिमन्त्रितं कृत्वा ततो देव्यै निवेदयेद् पवित्रारोपणं कृत्वा नरो नार्यथवा यदि महादेव्या प्रसादेन भुक्तिं मुक्तिमवाक्नुयाद भाद्रशुक्लचतुर्दश्यामनन्तव्रतमुत्तमं कर्तव्यमेकभुक्तं हि गोधूमप्रस्त तिष्टकम् विपाच्य शर्कराज्याक्रमनन्ताय निवेदयेत् गन्ताद्यै प्राक् समभ्यर्च्य कार्पासम्पटदं तु वा चतुर्दशग्रन्थियुधं सूत्रं कृत्वा सुशोभनं ततः सूत्रं क्षिप्त्वा जलाशयेम् नि नवं नारी वामे दक्षे पुमान् भुजे विपाच्य पृष्टपक्वं तत्प्रदा प्रद्याद् दक्षिणान्विधम् स्वयं च तन्मिदं चाद्यादेवं कुर्याद्व्रतोत्तमम् द्विसप्तवर्षपर्यन्तं तद उद्यापयेत्सुधीः मण्डलं सर्वतो भद्रं धान्यवर्णैः प्रकल्प्य च सुशोभने न्यसेत्तत्र कलशं ताम्रज मुने तस्योपरि न्यसे ध्यायिमि मनन्दप्रतिमां शुभं पीतपट्टां शुकाच्छन्नाम् तत्र तां विधिना यजेद् गणेशमाधृकाङ्खेल्लोकपांश्च यजेत्पृथक् ततो होमं हविष्येण कृत्वा पूर्णाहुतिं चरेद शय्यां सोपस्करां धेनुं प्रतिमां च द्विजोत्तम प्रदद्याद्गुरविभक्त्या द्विजानन्यांश्च दुर्दश सम्भोज्यमिष्टपक्वान् न दक्षिणाभिप्रदोषयेत् एवं य कुरुते नन्दव्रतं प्रत्यक्षमादराद सोऽप्यनन्दप्रसादेन जायते भुक्तिमुक्तिभाक् कदलीव्रतमप्यत्र तद्विधानं च मे शृणु नरो वा यदि वा नारीरम्भमुपवनस्थिताम् स्नात्वा सम्पूजयेद्गन्धपुष्पधान्याङ्कुरादिभिः दधि दूर्वाक्षतैर्द्वीपैर्वस्त्रपकान्नसंव्यैः येवं सम्पूज्य मन्त्रेण तदसम्प्रार्थयेद्व्रदि अप्सरो शरीरारोग्यलावण्यं देहि देवि नमोऽस्तु दे इदि तं प्रार्थ्यं कन्यास्तु चतस्रो वासुवासिनीः सम्भोज्यां शुकसेद्वरकज्जलालकृचर्चिताः नमस्कृत्य निजं गेहं समाप्य नियमं व्रजेत एवं कृते व्रते विप्र लब्ध्वा सौभाग्यमुत्तमम् इह लोके विमानेन स्वर्गलोके व्रजेत्परम् इश कृष्णचतुर्भ्यां चतुर्दश्यां विषशस्त्राम्बुवह्निभिः सर्पश्वापदवज्राध्यैर्पदानां ब्रह्मकादिनां चतुर्दश्यां क्रियाश्राद्धमेकोद्दिष्टविधानदः कर्तव्यं विप्रवर्गं च भोजयन्मिष्टभक् कैः तर्पणं जगवां ग्रासं बलिं चैव स्वकाकयोः कृत्वा चम्यस्वयं पश्चाद् भुञ्जीयाद्बन्धुभिस्सह एवं ह्य कुरु देविप्रश्राद्धं सम्पन्नदक्षिणं स उद्धृत्य पितृं देवलोकं सनातनं इष शुक्लचतुर्दश्याम् धर्मराजम् द्विजोत्तम गन्धाद्यैः सम्यगभ्यार्च्य सौवर्णम् भोज्य वाङ्मम् दद्या तस्मै धर्मराजस्त्रायदे भुवि नारद एवम् ह्य कुरुते धर्मप्रतिमादानमुत्तमम् स भुक्तुवेहवरान् भोगान्दिवम् धर्माज्ञया व्रजेद पूर्जकृष्णचतुर्दश्यां तैलाभ्यङ्गं विधूदये कृत्वा स्नात्वार्चये धर्मं नरकादभयं लभेद प्रदोषे तैलदीपांस्तु दीपयेद्यमतुष्टये चतुष्पथे बृहद्ब्राह्मप्रदेशे वासमाहिदः वल्सरेह्यमलं व्याख्ये मासि श्रीमदिकार्तिके शुक्लपक्षे चतुर्दश्यामरुणाभ्युदयं प्रति स्नात्वा विश्वेश्वरो देवो देवैः सह मुनीश्वर मणिकर्णिकतीर्थे जत्रिपुण्ड्रम्भस्मनाद दद स्वात्मानं स्वयमभ्यर्च्य चक्रे पाशुपदव्रतं ततस्तत्र महापूजां लिङ्गे गन्धादिभिश्चरेद्रोणपुष्पैर्बिल्वदलैरार्कपुष्पैश्चकेतकैः पुष्पैफलैर्मिष्टभक्वैर्नैवेद्यैर्विविधैरवि एवं कृत्वैकभुक्तं तु व्रतं विश्वे लभते वाञ्छितान् कामानि कामुत्र च नारद ब्रह्म कूर्चव्रतम् चात्र कर्तव्यमृद्धिमिच्छत सोपवासपञ्चगव्यम् पिबेद्रात्र उदितेन्द्रियः कपिलायास्तु गोमूत्रम् कृष्णाया गोमयम् तथा श्वेतायाः क्षीरमुदितम् रक्तायाश्च तथा दधि गृहीत्वा कर्बुरायाश्च कृतमेकत्र मेलयेत् कुशाम्बुना तदप्रादस्नात्वा सन्दर्प्यं देवताः ब्रह्मणां स्तोषयित्वा जभुञ्जीयाद्वाग्यद स्वयं ब्रह्म कूर्चव्रतं ह्येदसर्वपादकनाशनं यच्च बाल्यकृतं पापं कौमारे वार्धकेऽपि यद् ब्रह्म कूर्चोपवासेन तत्क्षणादेव नश्यति पाषाणव्रतमप्यत्र प्रोक्तम् तत् शृणु नारद सोपवासो दिवानक्तम् पाषाणाकारभिष्टकम् प्रार्थ्य गन्धादिभिर्गौरीं कृतपक्वमुपाहरेद वृतमेदच्छरित्वा तु यथोक्तं द्विजतम ऐश्वर्यसौख्यसौभाग्यरूपाणि प्राप्नुयान्नरः मार्गशुक्लचतुर्दश्या मेघभुक्तपुरोदितं निराहारो वृषं स्वर्णं प्रार्च्य दद्या द्विजातये परेहि प्रारुद्धा महेश्वरम् पूजय कमलैपुष्पैर्गन्धमाल्यानुलेपनैः द्विजान् सम्भोज्य मिष्टान्ना स्तोषयदक्षिणादिभिः ये विप्र दक्षिपव्रतं विप्रभुक्तिमुक्तिप्रदायकं कर्तॄणामुपदेष्टॄणां साह्यानामनुमोदिनां पौष शुक्लचतुर्दश्यां विरूपाक्षव्रतं स्मृतं कपर्धीश्वरसान्निध्यं प्राप्स्याम्यत्र विचिन्त्य च स्नात्वा गाधजले विप्रविरूपाक्षं शिवं व्यजेद गन्धमाल्य नमस्कारधूपदीपान्नसम्पदा तस्थं द्विगाधये दत्त्वा मोददेदि माककृष्णचतुर्दश्यां त्यमतर्पणमेजिदम् अनर्काभ्युदिदे काले स्नात्वा सन्तर्पयेद्यमं द्विसप्त नामभिप्रोक्तै सर्वपापविमुक्तये तिलदर्भाम्बुभिकार्यं दर्पणं द्विजभोजनं कृसरान्नं स्वयं चापि तदेवास्नेदवाग्यदः अन्त्यकृष्णचतुर्दश्यां शिवरात्रिव्रतं सामो समुपोष्यत्र दिवानक्तं प्रपूजयेद् स्वयंभुवादिकं लिङ्गं पार्थिवं वा समाखिदः गन्धाद्यैरुपचारैश्च साम्बु बिल्ल्वदलादिभिः धूपैर्दीपैश्चनैवेद्यैस्तोत्र पाढैर्जवादिभिः तदपरे खितं पूज्य पुनरेवोपचारकैकी सम्भोज्य विप्रान्मिष्ठान्नैर्विसृजे लब्धदक्षिणान् एवं कृत्वा व्रतं मर्त्यो महादेवप्रसादः अमर्त्यभोगन् लभते दैवतैः सुसभाजितः अत्य अद्य शुक्लचतुर्दश्याम् दुर्गां सम्पूज्य भक्विदः गन्धाद्यैरुपचारैस्तु विप्रान् सम्भोजये ततः एवं कृत्वा व्रतं विप्र दुर्गायाश्चैकभोजनः लभते वाञ्छितान् कामानिघामुत्रचनारदा चैत्रकृष्ण च दुर्दश्यामुपवात्संविधाय च केदारोदकपानेन वाचिमेधफलं भवेद उद्यापने दुःसर्वां सां सामान्यो विधिरुच्यते कुम्भाश्च दुर्दशैवात्र स पूगाक्षदमोदकाः तावन्धो वशदण्डश्च पवित्राण्यासनान्य च पात्राणि यज्ञसूत्राणि तावत्येव विकल्पयेत् शेषम् प्रागुक्तवत्कुर्याद्वित्तशाढ्यविवर्जितः ये श्री बृहनारदीयपुराणे पूर्वभागे बृहदुपख्यादुर्दशी व्रतवर्णन नाम विंशतिकमो